अथ एकोननवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः ऊचुस्तेभिर्न कर्तव्या वयं युत्स्यामहे परान् तानेवं वदतो विप्रान् अर्जुनः उवाच प्रेक्षका भूत्वा योऽयं तिष्ठथ पार्श्वतः अहमेनानदिमाग्रैः शतशो विकिरं चरैः वारयिष्यामि सङ्क्रुद्धान् मन्त्रैराशिविशानि वा इति तद्धनुरानम्य शुल्कावाप्तं महाबलः भ्रात्रा भीमेन सहितः तस्थौ गिरिरिरिवाचलः ततः कर्णमुखान् दृष्ट्वा क्षत्रियान् युद्धदुर्मदान् सम्पेततुरभीतौ तौ गजौ प्रतिगजानि ऊचुश्च परुशास्ते राजानो युयुत्सवः आहवेहि द्विजस्यापि वधो दृष्टो युयुत्सतः इत्येवमुक्त्वा राजानः सहसा ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे युद्धार्थीवासिता हेतोः गजः प्रति गजं यथा भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली दुर्योधनादयः सर्वे ब्राह्मणैः सह मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदा हवे ततोऽर्जुनः प्रत्यविध्यदा पतन्तं शितैशरैः कर्णं वै कर्तनं